आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च विससर्जमहाभागेवसिष्ठे ब्रह्मणः सुते अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे युगान्तसमये घोराः पतङ्गस्येव रश्मयः वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया यष्ट्या निवारयामास सर्वाण्यस्त्राणि सस्मयन् ततस्ते भस्मसाद्भूताः पतन्ति स्म अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् वसिष्ठौ उवाच निर्जितोऽसि महाराजदुरात्मङ्गाधिनन्दन यदि तेऽस्ति परं शौर्यं तद्दर्शयमयि स्थिते गन्धर्व उवाच विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिप नोवाच किञ्चित् व्रीडाढ्यो विद्रावितमहाबलः दृष्ट्वा तन्महदाश्चर्यम् ब्रह्म तेजो भवेतदा विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् दिग्बलम् क्षत्रियबलम् ब्रह्म तेजो बलम् बलम् बलाबलम् विनिश्चित्यतप एव परम् बलम् स राज्यं स्फीतमुत्सृज्यतां च दीप्तां नृपश्रियं भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे स गत्वा तपसा सिद्धिं लोकान्विष्टभ्यतेजसा तताप सर्वान् दीप्तौ जा अ बच्चत तोमींद्रेण सह कौशिश्रीमहाते आदिपर्वि चैत्ररथपर्वि वासी विश्वाम चतुस्यधतमोध्याय